ध्वर्यवो भरतेन्द्रायसो ममामत्रेभिः सृञ्जतामध्यमन्धाः कामीः वीरस्य धामस्य वीतिम् जुहोदकृष्णे ददिदेशवष्टि अध्वर्यवो यो अपोपग्लिवांसम् वृत्रम् जघाना सन्न्येव वृक्षम् अस्माजेतम् भारतप्रसायम् केष इन्द्रो हरिहति प्रीतिमस्य अध्वर्यभोजोदृभीकम् जघानयोगाबुदा जल तस्मायतमन्तरिक्षेण वा तमिन्द्रम् सोमेरोर्णोदजोर्नवस्त्रीः अध्वर्यभोजपुराणम् जघाननव चख्वांसम् नवतिम् च बाहूरे यो अद्भूदव नीचा वा बाधे तमिन्द्रम् सोमस्य अध्वर्यवोजस्वस्वम् जघानजः सुष्ठमसुषम् योव्यम् सम् यः पिब्रह्मो धिञ्जोरोधिक्राम् तस्मादिन्द्रायाम् दासो जुहोता अध्वर्यवोजः सदम् संवरस्य पुरोभिभेदास्मनेव पूर्वी यो वर्तिरः सदमिन्द्रः सहस्रममावाध्वरा अध्वर्यभोजश्रवणारहस्रम् भूम्यागुपस्थेव वज्जगन्वान् कुत्सस्यायो राण्यावृणग्भरदासोमास्मै राध्वर्यभोजन्नरः कामयाध्वेदश्रुतीहम् दो न सधातदिन्द्रे गभस्ति भूतम् भरदश्रुतायेन्द्राय सोमम् यज्जभोजोद ये अध्वर्यवः कर्तरस्मेव नेरुभूतम्बनपुन्राजध्वम् युषालो अस्य मिवावसेव इन्द्राय सोमम् मधिरम् जूहूत अध्वर्यवःपजसो धर्यसागोः सोमेऽभिरीम् वृणता भोजमिन्द्रम् वेदागमस्य नभृतम्बजेदुत्सनम् परम् भूयो यजतश्चेत अरभोजो दिव्यस्य वस्वजः पार्थिवस्य क्षम्यस्य राजा तमोर्दरन्नप्रणताजभेदेन्द्रम् सोमे भो वो अस्तु अस्मभ्यम् तद्वसोदाराय राजः समर्थयस्व बहुदेव सव्यम् इन्द्रयश्चित्रम् श्रावस्यानुद्योन्द्रद्वरेम विदधे सुवीराः न्दस्य महतो महानी सत्या सत्यस्य करानानि वोचम् तृगद्रुगेष्वमिवत्सुतस्यास्य मधे अहिमिन्द्रो जघान अभंसेद्यामस्तभा यद्बृहन्तमारोदासी अवृणदन्तरिक्षम् सधार यत्पृथिवीम् आत्मथश्च सोमस्य ता मध इन्द्रश्चकार सद्मे वक्त्रा चिमी माजमानेर्वज्रेणान्यतृणन् नदीना ऋधार्घजाते स्वामस्य रामदयिन्द्रश्चकार सर्प्रोढ्रेन्वाधिगत्या दभीतेर्विश्वामधावायुदभिद्धे अग्नौ सङ्गोभिरस्वैरसृजद्वधेर्भिस्वामस्य रामदयिङ्गश्चकार ो अस्माकस्ति तव उत्स्नाय नजिमभिप्रत स्वमस्य राम नयिन्द्रश्चकार सोदञ्जम् सिन्धु मरिणान्मयित्वा मध्ये न गुणस्वम् बिबेढ अजमसो जिनीभिर्विमस्य राम नगिन्द्रश्चकार विद्वाम् कनीरामाविर्भवन्मुदादिष्टपराविग् प्रतिश्रोणस्थाद्या अनगदष्टसोमस्य रामजयिन्द्रश्चकार विनद्वलमङ्गीरोभिर्गृणानापि पर्वादस्य धर्मिलान्यैरृणोधांसि कृत्यवान्येषाम् सोमस्य रामजयिन्द्रश्चकार स्वप्नेनाभ्युभ्याचमुरिन्धनिम् जगन्धरस्यम्प्रधनीवः सम्भीरिदत्र विविधेहिरन्यम् सोमस्य नाम सैन्द्रश्चकार नूनम् जाते प्रतिवरम् जरित्रे दोहीयदिन्द्रदक्षी ना मघोनी शिक्षा स्तोत्रभ्योमादि तद्भगवनाम् विदधे सुवीरा ज्येष्ठतमाय सुष्ठुतिमग्नादीव समिधाने हविर्भरे इन्द्रामधुर्यम् जलयम् तमुक्षितम् सनाज्यवाह नमवासे हवामहे यस्मादिन्द्रा दृढदः किञ्चने मृते विस्वाहन्यस्मिन् सा मृदाधीवीर्यामम् ैवज्रम्भराजिशीर्षणि कृतम् क्षोणीभ्याम्बरिभ्येद इन्द्रियम् स मुद्रैः पर्वतैरिन्द्रे रथाः न सेवन्वस्मोदिकश्च न यदासुभिक्पदासि योजनापुरु निःश्रेह्यस्नैरदाय दृष्टभे कृतुम्भरम् निवृढभाजतश्च ते ृषा यजस्वह विषा विदृष्टा नेन्द्रसोमम् वृषमेन भानुना वृष्टो सप्पवते मध्वभूर्भिर्वृषभान्नाय वृषभाय मायाद्धर्यो वृषभासो अद्राजो वृषमम् सोमम् वृषभाज शृष्वती वृषासे वज्र उदते वृषारसो वृषला हरी वृषभान्यायूधा मृष्णो मदस्य मृणभत्वमेन्द्रतोमस्य मृणवस्य नृक्मिः रतेनाभन्नसमानेव चुभम् ब्रह्मा नायामि समानेषु दाधीषिः कुमिन्नो अस्य मचासो निबोधेषु इन्द्रवत्साङ्गस्य चामहे कुलासम् बाधा लभ्यामा वृत्सनो धेन न वत्संयमासस्य पिदृषी सकृत्सुते सुमतिभिः सक्रतो संवध्नि जनवृषा नो न सीमहि नूनम् दाते प्रतिपरम् जरित्रे दोहे यदिन्द्रदक्षी नामघोनी शिक्षा सोदृभ्योमादिभो नोगद्मदे सुवीराः तदस्मै नव्यावङ्गिरस्वदर्च्वाजलस्य विश्वायद्गोत्रासः सामरीमृतामते सोमस्य दृम्भिरान्यैरायत् स भोजयोः प्रथमा यथाय जा सभोजोमिमा नो महिमानमातीरत् शोरोजो युच्छम् परिव्यय शीर्षैजा महिना प्रत्यमुञ्चत अथा दृणोः प्रथमम् वीर्यम् आद्यस्याग्रे ब्रह्मणा सुष्मैरायः हर्यस्ते न विच्यूताः प्रजीलयसि स्वते सध्याप्रागे विश्वाभुवानाभिवाया अभ्यवधत आद्रोदसी ज्योति यावन्निरात नोत्सीर्भ्यन्त माम् सुधीता समव्ययत् स प्राचीनान् पर्वतान् ब्रह्मरो च साधराचीन मकृणोदपामपाः अधार यत्पृथिवी विश्वधार समस्तभ्रान् माजयाद्या वासाः सा स्मारम् बाहुभ्याम् पिता कृष्वस्मादा धनुषो वेदसस्परि येना पृथिव्याम् विक्रिमम् सयध्यैवज्रेण हद्वक्तु विश्वनीः माजूरेव वित्रोऽ स च सती स मानादासदा स स्वामी येभम्प्रागेतमुपमास्याभरदद्धिभागम् बन्वो ओजेन मामहाः भोजन् त्वामिन्द्रमयम्बो वेमदधिष्पमिन्द्रापाम् शिवाजाने अमिण्ठीन्द्रजित्रया न भूतीर्भिन्निन्द्रवस्य सोनः नूनम् दाते प्रतिफलम् जलि द्वेनी शिक्षा सोदृभ्यमादिधद्भगो न भगत्वादे सुवीराः प्रातरसो लभो योजितस्मिश्च दुर्युगस्त्रिगसः सप्तरस्मि दारिद्रा मनुष्यस्वर्णा स युष्टिभिम्बतिभीरम् स्वभूत् म् सद्वितीय कुतो तृतीयम् मनूडः सहोदा अन्यस्यागर्भ अन्यभूजनन्तसो अन्येभिः सृजते तेऽन्योषा हरेणुकम्रथ इन्द्रस्य योजमायै सूक्तेन वदसान प्रानिरीरमन्यज मानासो अन्ये आद्वाभ्याम् हरिभ्यामिन्द्रयाह्याचतुर्भिराषद्भिर्भूयमानः काष्टाभिर्दसभिः सोपेयमजम् सुतस्सुमखलामृतस्कः आविंसत्यांसदायाह्यर्वाणा सत्पासदा हरिभिर्युजानः आपञ्चासदा सुरथेऽभिरिन्द्राष्या सत्तत्यासोपेयम् आदित्या न वत्याया ह्यर्वाणा सते न हरेभिरुच्यमानः अयम् हिरे सुनहोत्रेषतो मयिन्द्रत्वाया परीषि कोमदाय मम ब्रह्मेन्द्रया ह्यच्छाभिस्वाहईधुविष्वारथस्य पुरुत्रा हि विगम्यो बभूथास्मिन् रसवानेमादयस्व इन्द्रेण सख्यम् योषदस्मभ्यमश्च दक्षीणादुहीत उपज्येष्ठेवरोधे गभस्तौ प्राये प्राये जिगीवांसस्याम नूनम् स ते प्रथिवरम् जरित्रे दोहीयजिम् न दक्षीणा मघोनि अपा यस्यान्दसोमदायमनीषिणः सुभारस्य प्रजातः यस्मिन्निन्द्रः प्रथिवीवावृधानभोगो दधे ब्रह्मण्यन्दश्चनराः अस्य मन्दा नो मध्वो वज्रहस्तो हिमिन्द्रो अर्णो वृतम् व्यवृश्चत् प्रयद्वजोनस्व राण्यच्चाप्रजां श्रिनलीनाम् चक्रामन्त समाहीनयिन्द्र अर्नो अपाम् वैरा यदहिहाच्छा समुद्रम् अजन यत्सूर्यम् बिरद्गा अग्नाह्नाम् वजनानि साधत् सोऽप्रदेशमन वे भ्रूणीन्द्रो दासद्धासुटे हन्ति भृत्रम् सद्यो यो लुभ्यो अतसा योऽपस्पृधानेभ्यः सूर्यस्य सातौ ः सूर्यवा देवो रेणङ्मत्यायस्तवान् आयद्ययम् गुहदावद्यवस्मै भरदम् सम्भैतसोदसस्यन् भयः स जिवः साराधये दृष्टमसुषङ्कुज मङ्कुत्साय जिवो दासा जलमति जलवेन्द्रः पुरोव्यैरच्छम्बरस्य ये वा द इन्द्रो जथा महेमस्वस्या रत्मना मारयन्दः अस्या मदत्साप्त मादुषाणाननमोपधर देवस्य बीजोः देवाते वृत्समदा सूरमन्मा वस्य मोरभजुना निदक्षुः ब्रह्मण्यन्द इन्द्रतेरबीयिषमोर्जम् स्वक्षुजम् सम् नमः स्युः मूलम् सा जे प्रतिबलम् चरित्रे दूही यजिन्द्रलक्षीणा मघोनी शिक्षा स्तोदृभ्योमातीतद्भगो न बृहद्वादे सुवीराः वयम् देवज इन्द्रभिज्विषु नः प्रभ रामहे वा जयम् नरसम् विपन्यबोधीध्यातोमनीतासुन्दमयच्छन्दस्तान् वर्णायन्दत्वाभिरूत्वा यतोभिट्टिपासि जनान् त्वमिनो दासृगोऽप रूतेऽर्थाधीरभियो रक्षादित्वा सर्वो युवेन्द्रो जोगोत्रः सखा शिवो न नामस्तु पाता यः संसन् तन्यस्य समानभूतेनम् दम् जस्तु बम् च तमसुरयुण्डम् दङ्ग्रेणी यस्मिन् पुमाः मृजुस्वाः सदश्च सर्वस्वः कामम् वीरदियानो ब्रह्मण्यजो नूतनस्यायोः सोऽङ्गीरसा मुजसा ऋजुष्वान् ब्रह्मादूतोदिन्नो गातु विष्णन् मृष्णन् नृधः सूर्ये नस्तवानस्वशिच्छामि सः सुद इन्द्रो नाम अपप्रियपरि सुधावान् शरद्रहेन्द्रकृष्णयो ने पुरन्दरोदासीरयन यद्विमश्च शरत्रासम् सविदमानस्य दूतो तस्मै तपस्या अमनोदागिसत्त्वेन्द्रागते जातौ वज्रम् बाह्वेदस्य नूनम् जाते प्रतिपरम् चरित्रे दूही गजिम् प्रलक्षीणा मघोनी शिक्षा सौदृभ्यो माति दग्भगो नाम विदधे सुवीराः श्वजिते धनजितेश्वर्जिते सत्राजितेः विजित उर्वराजितेः स्वजिते भोजिते अब्जिते भनेन्द्रायसोमम् यजलाय हर्यलम् अभिभुवेभिभङ्गाय वन्धतेषाढाय सह मानाय मेधसे सुविग्रजे वह्नाय दृष्टरी तवे सत्रासा हे न महिन्द्राज गोध सत्रासाहो जान भक्षो जानम् सहश्च वो युद्धो अनुजोषा मुक्षितः मृतञ्जयः सूरिर्विष्माहृत इन्द्रस्य वोधम् ऋषमाणी वीर्या अनानदो वृषभो दोधतोमक्षराजः रघ्रजोदस्वधानो वीलित यज्ञमुषस्वर्जनत् यज्ञेन गातुमत्तुरो विविद्रिदेधियो हिम्बानाकुशिजो मनीषिणः अभिश्वरानिषदागावस्य महिन्द्रे हिम्बाना द्रवीणान्यासद इन्द्रश्रेष्ठा निद्रवीणानि देहि दिर्यन्दक्षस्य सुभगत्वमस्मे कोषम् वरिष्टिम् धनूनाम् स्वात्मानम् वागस्सूदिरद्मह्नाम् दृगद्रिगेडमजपामस्त्रिवत्स मामपि भविष्णूना सुतम् यथापासत् सीम् ममा दमहि कर्म कर्ता वे महामुरम् सैनम् असत्विषीमा अभ्योजसाक्मिम् यथा भवदारोची अप्रणतस्य मज्मधा प्रवावृधे अदतधान्यम् जगते प्रेमरिच्यदसैनम् सश्च देवो देवम् सत्यमिन्द्रम् सत्य इन्दुः सामञ्जलः कृतो न सागमोज साववक्षितसागम् रद्धो दीर्जैः सा सैर्मृथो विदर्शणिः दादस्तु पदेवाद्यम्बसुदैलम् तश्च देवो देवम् सत्यमिन्द्रम् सत्यबिन्दोः भवत्यन्दर्यम् घृतोपालिन्द्रप्रभाम् पूर्जम् जिवित् प्रवाच्यम् गृहम् यद्देवस्य तव सा प्रारीणासुम् गृणन् नपः भवद्विस्त मध्यादेः भोजसा पितादूर्जम् शतक्र दुर्विदादिषम् गणाम् त्वा गणपतिम्बवामहे कविङ्कवीनामोपमश्रावस्तवम् ज्येषणाम् ब्रह्मणस्पदा न शृण्वन् नोतिभिः श्रीरसादनम् देवाश्चित्ते असुर्यप च दशो बृहस्पते यज्ञम् भागमानसो दुस्राजीवसूज्यो ज्योतिषा महो विश्रेहेषा विद्यापिता ब्रह्म नामसि आभ्याध्यापरिरापस्तमांसि जद्योतिष्ठन्तम् तथा भृतस्य तिष्ठसि बृहस्पते भीमवामित्रसम्भानम् रक्षोहणम् गोत्रभियम् स्वर्विदम् सुनीतिभन्नय सेत्राय सेचनम् यस्तो भासान्नतमम् भोः अश्रवत् ब्रह्मस्तप नो मञ्जुमीरसि बृहस्पते महितत्तेः महित्फलम् न तमम् भो न दूरितम् कृतश्च नाराधय स्थितिसर्णध्वजामिनाः विश्वायि तस्माद्धन न्नो गोपा प्राधिकृत्ते चक्षणस्तवृताय वतिभिर्जरामहे बृहस्पते यो नो अभिः परो दधेयः स्वादम् मर्मर्तु दुच्छुना हरस्वती उत वा यो नो वर्तया धना गजोरा जीवामर्तः साधुको मृगाः बृहस्पदे अपदम् ्रातारम् तातनूनारम् भवामहेवस्मर्तरधिभक्तार वस्मयम् मेघस्पदेबर्हजमाधुरे बाबुत्तारम् सुम् नमुन्नासन् तया वयम् सुबृधा ब्रह्मणस्पदे स्मार्गावसो मनुष्याद धीमहि यानो धूरे दलितोजालातजोऽभिषन्ति जम्भजाता न प्रसाः जमुत्तमन्धीमहे वजो बृहस्पते पप्री नास्रीनाजिजा मानो दुःशंसा अभिदुच्छ यतप्रसृतंसा मतिभिस्तारिषीमहि अनानन्दो व्रीडभोजग्नीहवन्निष्टप्रदा स त्वम् मृदानाससा सहि असि सत्यरे न ब्रह्मणस्तद उग्रस्य जिद्दपिदा अदेवे न मन सा योरीषण्यति सासा मुग्रो मन्य मा नो जिघांसति बृहस्पते माणक्तस्य नो मधोलिकम् मा मन्युम् दुरेवस्य सर्धतः हरेषु नोबलद्योगन्तावाजेषु सनीधा धनम् धनम् विश्वाजिधर्योभिजित्वर्विव बरुहारथाजातफलिरक्षसस्तभजे त्वा निदेताधिरे दृष्टवीहर्यम् आविस्तकृष्वजतसत्त्वमुख्या अम् बृहस्पदेविवो अद्वय ृहस्पदे अधियदर्यो अर्हाद्युमद्विहाधिक्तु मध्यनेषु यद्यत गच्छम सरिल प्रजा ददस्मा सुद्रवीणम् देहि चित्रम् मानस्तेनेभ्यो ये अभिदृहस्पदे रामिनो रिपवोन्नेषु चागृदुः आ देवनामोह देवि व्रयोबृहस्पदेन परः साम्नो विदुः ेःभ्यो हित्वाष्टा जनः साम् नः साम् नः कविः शरणचदृजया ब्रह्म नश्वर्द्रुहो हन्त महृतस्य धर्तरि व्यजिः दवर्म तोगवाहम् गोत्रमुदसृज्योजतम् गिरः इन्द्रेण युजा तव सा परीवृतम् बृहस्पते निरपामोहुव्यो अर्णवम् ब्रह्मास्वधे त्वमस्य यन्तासूक्तस्य बोधितनायम् च जिन्व विश्वम् तद्भद्रम् जलवन्ति देवा बृहद्वा देव विदधे सुवीराः भद्रा अपि वादयमनाः ॐ हरिः ओ खातवृहस्पदेशीसोदमोहो मतिम् यौनम् पाम्य मन्योज सोदाधर्मुनासंवारादि जदच्चूदा ब्रह्मणस्मधिराजावी सद्वसुमन्तम् विपर्वतम् देवानाम् देवता वा जगत्त्वमस्वत्सन्दृहावीता पुरुगा यदभिरद्ब्रह्मणा परमगोहत्तमो व्यादक्षयत्स्वाः अस्मास्यमबलम् ब्रह्मणस्त्वधर्म दूधानमभियमो जसा तृणत् ेव बहुसाकम् जुरुत्समुद्रिणम् स नाता काचिद्भुव ना भवेत्त्वा माद्भिः शरद्भिर्दुरो वरन्तवः भयदन्दाजरतो अन्यदम् यैद्याचकारभजुना ब्रह्म नस्पतिः अभिनक्षन्तो अभियतमा न सन्निहम् पणीनाम् गुहाहिलम् ते विद्वांसः प्रतिचक्षा नृता पुनर्यता भुवाजन्तनः प्रतिचक्षा नृता पुनरातस्थः कवचो महस्पथः ते बाहुभ्याम् दमिदमग्निवस्मनिलघिशोऽ अस्त्यरणो जहुर्हितम् क्षिप्रेण ब्रह्मणस्मदर्यत्रवष्टिप्रददस्नो दिधन्वना अस्य साध्वीर्णभोजाभिरस्यति धिचक्षसो द्विषजेकम् न यो नयः सततम् नयः सवि नयः पुरोहि दस्य सुष्टु दस्य यदि ब्रह्म युवासादानी वेण्यस्य बाजिनो जनाः उभये भुञ्जते विशाः यो मारे वृजने विश्वथा विभुर्महावूरण्वः समासा ववक्षीथ स देवो देवान् प्रदेव प्रथे पृथुर्विश्वे ऋतापरिभोर्ब्रह्म नस्पतिः इस्वम् सत्यम् माघवाना जिवो वितापश्च न प्रमीलम् ज्यदम्बाम् च्छेरेन्द्रा ब्रह्मणस्पति हर्नान्नम् चुजे एव वाजिनाजिगातम् उदाशिष्टा अनु शृण्वन्ति वह्ना यः सभेजो विप्रो भरते मतीधरा वीरुद्वेषा अनुपचारुणमा नदि सह वाजी सभिधे ब्रह्म नस्पतीः ब्रह्मनस्पते रभवद्यथा वसम् सत्यमञ्जर्म कर्मा योगा गुदा जत्स दिवे विचार भजन्महीवत्प्रसागे ब्रह्मा नस्पदे सुयमस्य विश्वः राजस्यामरत्योपयस्वतः ईरेणु वीरा भुगवा वृन्थिरस्तम् यदेशाहवम् ब्रह्माणस्पते त्वमस्य यन्ता सूक्तस्य बोधितनयम् च जिन्व दिस्सन्तद्रम् यदवन्ति देवा दृढ देव विदधेः सुवीराः इन्द्र नो अग्निम्बरवद्वर्षकृतब्रह्मासुवदादहौ यत् जातेन जातमदित प्रसरसृधेयम् यम् जिजम् दृढते वीरभिर्वीरान्वनवद्वर्षतो गोभीरजम् बप्रसद्बोध वित्मनाः सोकञ्चतस्य तनयम् च वर्धते यम् जङ्गिषम् नृढते ब्रह्म नस्पतिः सिन्धर्नक्षोदस्यमी वाम् गृहायतो वृषे अग्नेरेव प्रसी जन्नागमर्ता वेयम् यञ्जितम् शृणुते ब्रह्मणस्पतीः तस्मा अर्णन्ति दिव्याः सश्च दस्वसत्त्वाभिप्रथमो घोषो गच्छति अनेभृड्डदविर्हन्त्यो च सालिम् यञ्जितम् शृणुते ब्रह्मणस्पतीः तस्माधुनयन्तसिन्धवोच्छिद्रासम्मदधिरे भूणि देवानाम् सुम्ने सुभः सजे धते यम् यञ्जिदम् गृहुते ब्रह्म नृस्पतिः यतिरित्यम् सह बलवद्वरुष्यतो देहः भयम् निददेः भयम् तमभ्यासते सुप्रावीरिद्वद्भृत्सु धृष्टरञ्ज्वेदयजो विभाजाति भोजनम् यजस्तवीरप्रवीहि यतो भद्रम् मनः कनष्टवृत्तौर्ये हविष्कृ सुभो दिदाग्ब्रह्मणस्पतेन वाहे स यज्जनेन सिदासजन्मनासपुत्रैर्वाजम् भरते धनागृभिः देवानायः पितरा माविवा सति श्रद्धामाना हमिषा ब्रह्मणस्पतिम् यो अस्मे हव्यैर्घृतवद्भिरवे धम् राजानय जिग् ब्रह्मणस्पतिः उरुष्यते सौरक्षतीस्मागुरुचक्विरद्भूतः गिरादित्येभ्यो घृतस्वासनाद्राजभ्यो जुक्त्वा जोमि शृणोतु मित्रोर्जमा भगो नस्तु विधातो वरु नो दक्षा अंसाः मांस्तमंसक्र तवो मे अद्य मित्रो अर्जमावरुणो दिषन्त आदित्या सृजयोधारभूतावृज्या अर्जरिष्टाः तादित्या स गुरवो गभीरालब्धा सो दिप्सन्तो भूरिक्षाः अन्तः पश्यन्ति विजयो साधु सर्वम् राजभ्यः परमाचिदन्ति धारयन्ता नित्या सो जगत्स एव विश्वस्य भुवनस्य गोपाः दीर्घादियो रक्ष्यमाणा सुमृतावा नश्चयमाना ऋणानि विद्यावादित्या अवसो अस्य च तर्जवन् भयादि युष्माकम् मित्रावरुणा प्रणीतौ परिश्वभ्रेवदुतानि वृद्या सुगो दिवो अर्जवन्मित्रबन्धाः लक्षरा वारुणसाधुरस्ति एनादित्या अधीवो च तानो यच्छ तानो दुष्टरिहन्तु सम्मर्तु नो अधीतिराजपुत्रादिद्वेषा हंसर्यमासुकेभिः ऋन्मित्रस्य वरुणस्य सम्मो ्रो भूमेर्धारयन्त्रे सुरन्त्रेः व्रता विदधेः अन्तरेत्यामहे वो महि त्वम् तदर्जवन्मरणमित्रुरो जलाधिव्या धारयन्त हिरण्यया सुरजो धारभूताः अस्तोप्रजो अनिमिषा अदब्धा गुरुसंसारिध मे मत्या सिरा देवा वरुणा शिराजाय च देवासुरजयः सलम् नदो विदक्षे श्यामायोंशिशुधिता पूर्वाः दडक्षिणा विशीचितेन संज्ञान प्राचीनावादित्यालोतमस्याजिद्बवो धीर्याजिज्युष्मानी अभजम् ज्योतिरस्या यो राजभ्यभ्यो ददाशयम् बद्धयन्ति पुष्टयश्च नित्याः सेवादिप्रथमो रथे नव सुवा विदते सुः सूयसा मित्रवरुणोगमिरयद्भोः भयम् च कृमागच्छिदागाः उर्वश्यामवाजम् ज्योतिर्गण्यमानो दीर्घान्धमिश्राः उभे अस्मैपि वयदः समीचीर्गोढम् सुभगो नाम पुष्यन् उवाख्याः वाजयन्नादिमुत्सोभावद्धौ भवतः साधु अस्मै माजा ो मायाभिद्रुवे यत्रासा आदित्या अश्रीपता अतीशेषम् रथेनाविष्टा पुरा वा समन्स्याम माहम् मनो नामरणप्रियस्य भूरिदा न वीयंसून मापेः राजो राजा मानवस्ताम् जगद्मदेव विदधेः सुबीराः इदम् कमेलादित्यस्य स्वराजो विश्वानितान्त्यभ्यस्तु मह्ना अतिजो मन्द्रो यथा यदेवः सु कीर्तिम् भिक्षे वरुणस्य भूरेः सर्वम् भ्रजे सुभगा तस्यामस्वाध्य वरुण उपायनपुरसाङ्गो राभङ्गोने तव श्याम पुरुवीरस्य धर्मणप्रणेदः योजन्नः पुत्रादितेन लब्धा हरिमध्वम् युज्यायदेवाः रसीमादित्यो आसृजद्विधर्ता नो वरुणश्चयन्ति ्राधाय नृतस्य मा नुच्छेदिवयतोधियम् मे मामात्रा पुरहृतोः सम् यक्ष वरुणभियसंवत्सम् राताको नो माघृभाय त्साद्यो मध्यम् भो नहि त्वदाने निमिषश्च देशे मालापधैर्वारुणये च निष्ठादेनः कृण्वन्तमसुरभ्रीणन्ति मार्ज्योतिषप्रभसतानि कण्डमिषो मृगशिश्रजो जीवसे न ममः पुराते परम् तु विजातब्रवाम ते हि कम् पर्व तेन सृतान्यप्रच्युतानि दोलभव्रतानि पररुणासा वीरधमत्कृतादिमाहम् राजन्यकृतेन भोजम् अव्यष्ठायन्न भूयासि नो जीवानरुणतासु साधि दोमे राजन्युज्यपासखा बास्वेन भयम् भीरवे जो दिप्सा दिनामृगाम् तस्माद्वरुणबाह्यस्मान् माम् मघो नाम वरुणप्रियस्य भूरिसू न मापेः मा राजो राजान् सुयमानवस्ताम् बृहद् विरधेन सुवीराः धृतम्रता आदित्याजोरिवागाः शृण्वतो भोगुरु न मित्रदेवाः भद्रस्य विद्वा योजम् देहे वा कृण वामापारेण समाप्ते मित्रावरुणादिदेजस्वस्तिन्द्रा मनुतो दुधात हये देवाजूयमितापयस्थते दे मृणतनाथमानाय मह्यम् मा भो रथो मध्यमवा युष्मावत् स्वामिषु श्रुष्म रमये गोवा विमयभूर्या गोजन्मापितेवागितमंससा आरेपासाः आरे, आरे अघानि देवाधिपुत्रे विमीवग्रभीष्ट अर्वाञ्च अद्य भवता यजत्राद्यभजमानो जयेयम् राध्वम् नो देव निज भृगस्यत्राध्वम् कर्तादोः यजत्राः ो नामरणप्रियस्य भूरि नू न मामेः मालायोरायन् सुस्था मृहद्व देव विगते सुवीराः सुन्देवाय गण्वते सित्र इन्द्राय हिघ्ने न मन्दापाः अगरहृया त्यक्तुरवाङ्गयाच्चा प्रथमः यो वृत्रा यश नवत्रा भविष्यत्पदम् जनित्रे लिदुषा उवाच पदोरथम् तीरनजोषामस्मे जिवेदीवेधुना योजन्त्यर्थम् ऊर्ध्वो ह्यस्तदभ्यन्तरिक्षेधाः भृत्राजप्रभसम् जभार निगम्वसा नुपहीमनुद्रात् तिग्मायूधोऽजच्छद्रुलिङ्गाः बृहस्पते पुषा सेवविध्य बृहज्जलो असूरस्य वीरान् जा जा यथा जगन्धा दृढता पुराजीदेवाचिसत्रूपस्माकानिन्द अभक्षिप दिवो अस्मान् सत्वम् मन्दसानो निजोर्वाः लोकस्य साधुतरायस्य भूरे रस्माध्वम् क्रीडतारिन्द्रगोला हि कृतम् मृगधोजम् वा ऋतो रथ्यस्य स्थौजजालस्य चोदौ इन्द्रादो मा जिवमस्माविष्टमस्मिन् भयस्ते कृकम् नमादमन्नस्रमन्नोदम् ब्रह्णवो जा महासू नो देदिसोमम् ृणाब्ो निबोधाद्यो सन्वन् तमु भगोभिराजत् सरस्वतित्वमस्मानुच्छर्धम् दम् दविषीयमाहानमिन्द्रो हन्ते वृषभम् सङ्गीकानाम् योगस्तनृत्य उत वादिघत्वराभिख्यायलन्ति गितेन विद्या दृहस्ततः आजुधैर्ये शत्रोः दृहेरीषम् तम् परिदेहि राजन् अस्माकेनभिः सत्त्वाभिः सूरूरैर्बीजानि देहत्वाहानि ज्योगभूवन्दनो धोपिता सो हे तेषा मा नो वसूनि तम् यथा वीरम् न्यम् दिवे दिवे अस्माकम् मित्रावरुणावतम् रथामादित्यैरुद्रैर्वशोभिश्च चाभुवा प्रजद्वयो न वक्तन्वस्म न स्परिश्रवस्य बोभिषे वन्दोपनर्षदाः स्मानबुदपदासजोषसोरथम् देवासो अभिविक्ष्वाजयम् यथा सहपद्याः विस्तिस्रोनथः पृथिव्याः सा नौ जङ्घनन्दपाणिभिः उदस्य न इन्द्रो विश्वचर्षनिर्दिवः सर्धे न मारुतेन उतस्य देवो भुवनस्य सक्षनिष्ठक्ताग्नाभिस्सजोडाजोजुभद्रथम् इलाभगा बृहद्दिवोदरोदसीढावम् धिरश्विनामधापति उदत्ये देवी सुभगे मिथोदृशो राजा रक्ता जगातामपि युवाः ृथिविलम्ब्य सामजस्थानश्च वयस्रुवजागुपस्थिरेः उत पश्यं सिवस्योजयुक्षा सिता देवान्नपा दासुरे वाधिया समि एतावो वस्मिद्यता या अदक्षम् नाजभोनम् च शेषम् श्रवस्य भोवाजम् जकाराः सप्तर्नरथ्यो अहधीतिवस्याः अस्य मेद्यावापृथिवीरुधा यतो सदः ययो राजः प्रतरम् ते इदम् मानो आजो न आयोरहन्न भोरे रथो दुच्छाभ्यः मानोभिसख्या विद्धि तस्य नस्तुम् न यतामन सा तत्ते महे वये लतामन सानाम् धेनुम सत्यतम् अद्याभिरासम् वच सा च पाचिनम् त्वाम् हेदामि पुरुहूत विश्वः रागापकम् सुभमाम् सुष्ठु देहो मे शृणोतु नः सुभगामोत दुत्पला सेव्यत्वपः सूच्या निषिद्यमानयादधातु वीरम् रक्ष्यम् सोजा ुभृसोजादािदासुखेव सूमि दाभिन्नात्यसुपना उपाकहितकस्वभोधम् शोभेरला देवा नाम शिश्वसा जुठस्वहव्यमाहूतम् प्रजान्ते विदिनः <Sess> यासु बाहु स्वङ्गुलिशुषोमा भा बहुसु भारी तस्यै विस्पत्नी रविशिनी बाल्ये जुहोदना या गुङ्गोर्यासीनि बाल्ये यादा का या सरस्वती इन्द्राणि मह्वभूतये स्वस्तये ओ